श्रीदुर्गायै नमः श्रीदुर्गासहस्रनामस्तोत्रम् नारद्वाच कुमारगुणगम्भीर देवसेनापतेप्रभो सर्वाभीष्टप्रदं पुंसां सर्वपापप्रणाशनम् गुह्याद्गुह्यतरं स्तोत्रं भक्तिवर्धकमञ्जसा मङ्गलं गृहपीडासे शान्तिदं वक्तुमर्हसे स्कन्ध्वाचनारदेवदर्शे लोकानुग्रहकाम्ययां यत् दृक्षसे परं पुण्यम् तत्रैवक्ष्यामि कौतुकान् माता मे लोकजननी हिमवल्लं गसत्तमान् मेनायं ब्रह्मवादिन्यां प्रादुर्भूता हरिप्रियां महता तपसाराध्य शङ्करं लोकशङ्करं स्वमेव वल्लभं भेदे तदेव हि कलानिधिं नगानामधिराजस्तु हिंवां बिरहातुरः स्वसुताया परीक्षणे वसिष्ठेन प्रबोधितः त्रिलोकजननिश्रेयं प्रसन्ना पुण्यतः प्रादुर्भूतासुतात्वेन तद्वियोगं शुभं त्यज बहुरूपा च दुर्गेयं बहुनाम्नी सनातनी सनातनस्य जायाशा सा पुत्री मोहं त्यजाधुना यदि प्रबोधितशैल तां तुष्टावपरां शिवां सदा प्रसन्ना सा इतरं प्राह्नन्दिनी मत्प्रसादात् परं स्तोत्रम् हृदये प्रतिभासम् तेन नाम्नां सहस्रेण पूजयन् काममाप्नुही इत्युक्त्वान्तर्हितायां तु हृदये स्फुरितं तदा नाम्नां सहस्रं दुर्गायां रक्षते मे मङ्गलानां मङ्गलं तन् दुर्गाणां सहसुसहस्रकं सर्वाभीष्टप्रदां पुंसां प्रविम्य अखिलकामदं दुर्गादेवी समाख्यातां हेमवादृशिरुच्यते छन्दोऽनुष्टुब्जपोदेव्या प्रीतये क्रियते सदां ऋषि छन्दांसि अस्य श्रीदुर्गास्तोत्रमहामन्त्रस्य हिंवान् ऋषिः अनुष्टुप्छन्दः दुर्गा भगवती देवता श्रीदुर्गाप्रसादसिद्ध्यर्थे जपे विनियोगः श्रीभगवत्यै दुर्गायै नमः देवी ध्यानम् ॐ ह्रीं कालाभां कटाक्षे हरिकुलभेदां मौलिबद्धेन्दुरेखां शङ्खं चक्रं कृपालं त्रिशिखमपि करैदृज्वहन्तीं त्रिनेत्रां त्रिगन्सिंहस्कन्धाधिरूढां त्रिभुवनमखिलं तेजसा पूरयन्तीं ध्यायेदुर्गां दयाख्यां तेजसपरिवृतां सेवितां सिद्धिकामये श्रीजयदुर्गायै नम ॐ शिवाथोमा रमाशक्तिरन्ता निष्कलामला शान्तामाहेश्वरी नित्या शाश्वता परमाक्षमा अचिन्त्या केवलानन्ता शिवात्मा परमात्मिकाम् अनादिव्यया शुद्धा सर्वज्ञा सर्वगाचला एकानेकविभागस्था मायातीतास निर्मला महां माहेश्वरी सत्या महादेवी निरञ्जना काष्ठा सर्वान्तरस्थापी तिशक्तिश्चा त्रिलालिता सर्वा सर्वात्मिका विश्वा ज्योतिरूपाचरामृता श्रान्ता प्रतिष्ठा सर्वेषा निवृत्तिरामृतप्रदा व्योममूर्ति व्योमसंसा व्योमधाराचितातुला अनादिनिधनामोघा कारणात्मकलाकुला ऋतुं प्रशमजानाभि अमृतात्मसमाशया प्राणेश्वरप्रियाणां नम्या महां महिषघातिनी प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी कल्पशक्तिकलाकामा महिषेश्च विनाशिनी सर्वकारिणि हन्त्रे च सर्वभूतेश्वरेश्वरे अङ्गदादिधरा चैव तथाम्बुकुटधारिणी सनातने महानन्दा काशये निथोच्यते चित्प्रकाशस्वरूपा च महायोगेश्वरेश्वरे महामायासदुस्पारा मूलप्रकृतिरीशिका संसारयोनिसकला सर्वशक्तिसमुद्भवा संसारपारा दुर्वारा दुर्निरीक्षा दुरासदा प्राणशक्तिश्च सेव्या च योगिनी परमाकदा महाविभूति दुर्दर्शा मूलप्रकृतिसंभवा अनाद्यनन्तविभवा परार्था पुरुषारणिः शब्दगम्या शब्दमाया शब्दाख्यानन्दविग्रहा प्रधानपुरुषरं सातीता प्रधानपुरुषात्मिका पुराणी चिन्मया पुंसाम् इष्टदा पुष्टिरूपिणी पूतान्तरस्थाकूटस्था महापुरुषसंहितां जन्ममृत्युजरातीता सर्वशक्तिस्वरूपिणी वाञ्छाप्रदानवच्छिण्ड प्रधानानुप्रवेशिनी क्षेत्रज्ञाचिन्त्यशक्तिस्तु प्रोच्यते व्यक्तलक्षणा मलापवर्जितानादि मायात्रिततात्विकां प्रीतेश्च प्रकृतिश्चैव गुहाभासा तथोच्यते महामाया नगोत्पन्ना तामसी च ध्रुवा तथा व्यक्ता व्यक्तात्मिका कृष्णा रक्ताशुक्ता च कारिणा रोचते कार्यजननी नित्याप्रसवधर्मिणि सर्गप्रलयमुक्ता च सृष्टिस्थित्यन्तधर्मिणि ब्रह्मकर्मा चतुर्विंश स्वरूपा पद्ममासिनि अच्युताहादिकाभिद्युब्रह्मयोनिर्महालया महालक्ष्मीसमुद्भाव भावितात्मा महेश्वरी महाभिमानमध्यस्था महानिद्रासकौचिका सर्वार्थधारिणी सूक्ष्मा यविद्धा परमार्षदा अनन्तरूपानन्तार्था तथा पुरुषमोहिनी अनेकानेकहस्ता च कालत्रयविवर्जिता ब्रह्मजन्मा हरिप्रीता मतिर्ब्रह्मा शिवात्मिका ब्रह्मे स विष्णुसम्पूज्या ब्रह्माख्या ब्रह्मसङ्गिता व्यक्ता प्रसमदा ब्राह्मे महारात्रि प्रकीर्तिता ज्ञानस्वरूपा वैराग्य रूपाशैश्वर्यरूपिणी धर्मात्मिका ब्रह्ममूर्ति प्रतिश्रुतपुमर्थिका अपां स्वयं पूता मानसि त्वस्तं भवा ईश्वरस्य प्रिया प्रवोक्ता शङ्करार्धशरीरिणि भवानी चैवरुद्राणी महालक्ष्मीतसाम्बिका महेश्वरसमुत्पन्ना भक्तिमुक्तिप्रदायिनी सर्वेश्वरी सर्ववन्द्या नित्यमुक्ता सुमानसा महेन्द्रोपेन्द्रनमिता शाङ्करीशानुवर्तिनी ईश्वरार्धसमगताम् माहेश्वरपतिव्रता संसारशोषणी चैव पार्वती हिमुपस्रुता परमानन्ददात्री च गुणाग्रय द्रै, गुणा योगदा तथा ज्ञानमर्ते सावत्री लक्ष्मी श्रीकमला तथा अनन्तगुणगम्भीरा यक्षरुशूरो नीलमणिप्रभा सरोजनिलया गंगा योगिध्येयासुरार्तिनी सरस्वती सर्वविद्या जगज्येषाशुमङ्गला वाग्देवी वरदा वर्या कीर्तिसर्वासुसाधिका वागीश्वरी ब्रह्मविद्या ब्रह्माविद्या सु शोभना ग्राहविद्या वेदविद्या धर्मविद्यात्मभाविता स्वाहा विश्वं हरासिद्धि साध्या मेधातिचिकृतिः सुनीतिसंकृतिश्चैव कीर्तिता नरवासिनी पूजा विभामिनी सौम्या भोग्यभागोगदायिनी शोभावती शाङ्करी च लोलामाला विभूषिता परमेशे प्रिया चैव त्रिलोकी सुन्दरी माता नन्दासन्ध्याकामधात्री महादेवी सुसात्विका महामहिधर्पग्ने पद्ममालाभहारिणी विचित्रमुकुटा रामा कामदाता प्रकीर्तिता पीताम्बरधरा दिव्या विभूषणविभूषिता दिव्याख्या सोमवदना जगत्संसृष्टिवर्जिता निरीयन्त्रायन्त्रबहस्था नन्दनीरुद्रकालिका आदित्यवर्णा कौमारी मयूर्वरवाहिनी पद्मासनगता गौरी महाकाली सुरार्चिता महाकालीसुरार्जिता अदितिर्निर्यता रौद्री पद्मगर्भाविवाहना विरूपाक्षाके शिवाः गुहापुरनिवासिनी महाफलानवद्याङ्गे कामरूपा सरिद्वरा भाष्यद्रूपा मुक्तिदात्रे प्रणत प्रणतक्लेशभञ्जना कौशकी गोमनी रात्रि श्रीदसारी विनाशिनी बहुरूपा सुरूपा च विरूपवर्जिता समना भव्या भवभावविनाशिने सर्वज्ञानपरिताङ्गे तर्वाशुरविमर्दिका विकस्वनि सामगीता भवाङ्कनिलया प्रिया दीक्षा विद्याधरी दीग्धा महेन्द्राहितपातिरी सर्वदेवमया दे। दक्षा समुद्रान्तर्वासिने अलङ्का अकलङ्का निराधारा नित्यसिद्धा निरामया कामनेनो बृहद्गर्भा धीमती मौननाशिनी निसंकल्पा निरातङ्का विनया सहस्राढ्या देवदेवी मनोमया शुभगासो विशुद्धा च वसुदेव कम्या महेंद्रोपेन्द्रभगणी भक्तिगम्या ज्ञानगेयापरातीता वेदात विषया मति दक्षिणा दहिका दहिया स्थिता जोगमया विभागा महामोहासी संध्याभूता ब्रह्मवृक्षा श्रिया बीजाङ्कुरसमुद्भूता महाशक्तिर्महामतिः ख्यातिप्रज्ञावती संज्ञा महाभोगीन्द्रशायिनी हिङ्कृति शङ्करी शान्तिर्गन्धर्वगुणसेविता वैश्वानरी महाशूला देवसेनाभवप्रिया भवप्रिया परानन्दा सति दुःस्वप्ननाशिनी यज्ञा सुर्विज्ञेयाशिरूपिणी गुहाम्बिकागणोत्पन्ना महापीठा मरुषिता अब्जवाहाभवानन्दा जगद्योनि प्रकीर्तिता जगन्माता जगन्मृत्युर्जरातीता च बुद्धिदा सिद्धदात्री रत्नगर्भा रत्नगर्भाश्रयापरा देहन्ती स्वेष्णुं धात्री मङ्गलैक सुविग्रहा पुरुषान्तर्गता चैव समाधिस्था तपश्विनी विस्थिता त्रिनेत्रा च सर्वेन्द्रियमनाधितिः सर्वभूतासिद्धिस्था च तथा संसारतारिणी वेद्या ब्रह्मविवेद्या च महालीला प्रकीर्तिता ब्राह्मणी बृहृति ब्राह्मी ब्रह्मभूताघहारिणि हिरण्मयी महादात्री संसारपरिवर्तिका सुमालिनी सुरूपा च वास्मिनी धारिणी तथा उन्मूलनी सर्वसभा सर्वप्रत्ययसाक्षिणीं सुसौम्या चन्द्रवदना ताण्डवासक्तमानसां सत्त्वशुद्धिकरीश्रुद्धा मलत्रयविनाशिनीं जगत्त्रयीजगन्मूर्ती त्रिमूर्तिरमृताशया विमानस्था च शोकनाशिन्यनाहता हेमकुण्डलिनी काली पद्मवासासनातनी सर्वभूत त्रया देवी सतां प्रिया ब्रह्ममृतिकला चैव कृत्तिकाकञ्जमालिनी व्योमके क्रियाशक्ति इच्छाशक्ति परागति शोभिका भेद्या भेदाभेद विवर्जिता अभिन्ना संस्था वशनी वंशधारिणी गुह्यशक्ति गुह्य तत्वा सर्वोमुखी भगनी च निराधारा निराहारा प्रकृतिशा पदोदूता चक्रहस्ताशोधि सगिणी पद्मेद कारिणी पर परावर विधानज्ञा महापुरशपुर पररजा विद्या च विजिहताश्रया विद्यामयी सहस्राथी सहस्रभनात्मजा सहस्ररश्मी सहेशरप्रया ज्वासम व्याता चिन्मया पद्मेदिका महाशया महामंत्रा महादेवामनोरमां व्योमलक्ष्मी सिंहरथां चे चेकितानामितप्रभा विश्वेश्वरी भगवती सकलाकालहारिणी सर्ववेद्या सर्वभद्रा गुह्या गूढागुहारिणी प्रलया योगधात्री च गङ्गाविश्वेश्वरी तथा कामदा कनकान्ता कञ्जगर्भाप्रभा तथा पुण्यदाकालके सा च भोक्ति पुष्करिणी तथा सुरेश्वरी भूतिदात्री भूतिभूषा प्रकीर्तिता पञ्चब्रह्म समुत्पन्नार्थविग्रहा वर्णोदयाभानुमरुतिर्वाग्विज्ञेया मनोजवा मनोहरा महोरस्का तामसी वेदरूपिणी वेदविद्याप्रकाशिनी योगेश्वरेश्वरि माया महाशक्तिर्महामयी विश्वान्तस्थाविम्बयन्मूर्तिर्भार्गवीसुरिसुन्दरी तर्भिर्नन्दनी विद्या नन्दगोपतनुद्भवा भारती परमानन्दा परावरविभेदिका सर्वप्रहणोपेता काम्या कामेश्वरेश्वरी अनन्तानन्दविभवा उल्लेखा कनकप्रभा कुष्माण्डाधनुरत्नाढ्या सुगन्धा गन्धदायिनी त्रिविक्रमपदोद्भूता चतुराशा शिवोदया सुदुर्लभाधनाध्यक्षा धन्या पिङ्गललोचना श्रान्ता प्रभा स्वरूपा च पङ्कजायतलोचना इन्दाक्षे शिवामा चातसत्क्रिया गिरिजा च सुगूषा च नित्यपृष्ठा निरन्तरा दर्गाकात्यायिनी चण्डी चन्द्रिका कान्तविग्रहा हिरण्यवर्णा जगती जगद्यन्तप्रवर्तिका मन्द्राद्रीनिवासा च शारदा स्वर्णमालिनी रत्नमाला रत्नगरभा युष्टिर्विश्वप्रमाथिनी पद्मानन्दा पद्मनिभा नित्यपृष्टा कृतोद्भवा नारायणी दुष्टशिक्षा स्वयमाता वृषप्रिया माहेन्द्रभगिनी सत्या सत्यभाषा सुकोमला वामा च पञ्चतपसां वरदात्रिप्रकीर्तिता वाच्यवर्णेश्वरी विद्या दुर्जया वीरभद्रप्रियाहिता भद्रकाले जगन्माता भक्तानां भद्रलायिनी कराला पिङ्गलाकारा कामभेत्री महामना यशस्विनी यशोदा च शरध्वपरिवर्तिका शङ्खणि पद्मनि शङ्ख्या साङ्ख्ययोगप्रवर्तिका चैत्रादिवशरारूढा जगस्सम्पूर्णिन्द्रजा सुम्भङ्नेखेचराराध्या कम्भोग्रीवावलिदिता स्वगारुढा स्महेश्वर्या स्वपद्मनिलया तथा विरक्तागुणस्था च जगति सिद्गुहाश्रया सुम्भादिमथना भक्त यद्गह्वर्निवासिने जगत्त्रयारणे सिद्ध सङ्कल्पाकामदा तथा सर्वविज्ञानदात्री च अनल्पकल्मषहारिणि सकलोपनिषद्गम्या दुष्टदुष्प्रेख्यसप्तमां सद्धृता लोकसंव्याप्ता तुष्टिपुष्टि क्रियावती विश्वामरेश्वरी चैव भक्तिमुक्तिप्रदायिनि शिवाधितालोहिताखे सर्पमाला निरानन्दा त्रिशाला त्रिशूलासे धनुर्बाणादिधारिणी देवतानां च देवता, देवता पराम्बिकागिरे पुत्री निशुम्भविनिपातिनि सुवर्णासुवर्णलसिता अनन्तवर्णासुरासिता शाङ्करी शान्तहृदया अहोरात्राभिधायिका विश्वगोप्त्रीगूढरूपा सत्य, संध्या पाप गुणपूर्णा गर्भ गौरीशाकंभरीशत सन्ध्यासंध्यातापुक्ता सर्वंध विवर्जिता शांध्योग्रमेया मुनीता विशुद्धशुकोभूता बिंदुनाद सामता शंभुवा मंक गाचीतुल्यनना वनमला विराजनायणोदूता नारिंगी प्रकर्ति दैत्या प्रमा शंख चक्र पद्म चक्रपदाधरा शंकर्षण सूत्पन्ना अंबिका सज्जनाशा श्रीविता सुंदरी चर्म कामलायिनी मोक्षा भक्तिलराणपुरता महाविभूतिराराध्या सरोजनिलया स माम् अष्टादशभुजानादिर्नीलोत्पलतलाक्षिणी सर्वशक्तिसमारूढा धर्मा धर्मविवर्जिता वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया विचित्रगहनाधारा सात्त्वतस्थानमासिनी ज्ञानेश्वरी पीतचेला वेदवेदाङ्गपारगा मनुशुनी मन्युमाता महामन्यु समुद्भवा अमन्योरमृतास्वादा पुरन्दरपरिष्टुता अशोच्याभिन्नविषया हिरण्यरजतप्रिया हिरण्यजननी भीमा हेमाभरणभूषिता विभ्राजमाना दुर्गेजा ज्योतिष्ठोमफलप्रदा महानिद्रासमुत्पत्ति अनिद्रासे स्वत्यदेवता दर्शां दर्भाककुद्मुनिं पिङ्गटाधारामनोगी महाश्रयारमोत्पन्ना तमापारे प्रतिष्ठिता हीतत्प्रमाता त्रिविधा सुसूक्ष्मापञ्चसंस्थया सान्त्यतीत कलातीत विकाराश्वेतचेदिका चित्रमाया शिवज्ञान स्वूपैतमिनी काशपी काल सर्पाणिकयीमूर्ति क्रियामूर्ती चतुर्वर्शिनी नारायणी नरोत्पन्ना कौमदी काधारिणी कौशकी ललितालीवर विभा वरिण्यादुतमत्म बड़भामलोचना सुभद्राचेतनाध्या शान्तिलाशान्तवर्षिनी जयादिशक्तिजननी शक्तिचक्रप्रवर्तिका त्रिशक्तिजननी जन्या सटसूत्रपरिवर्णिता सुगौ च कर्मणा राध्या युगान्तदहनात्मिका शङ्कर्षणि जगद्धात्री कामयोनि किरीटिनी ऐन्द्रियतैलोक्यनमिता वैष्णवी प्रद्युम्नजननि बिम्बसमौषी पद्मलोचना मदोत्कटाहंसगती प्रचण्डा चण्डविक्रमा विषाधीशा परात्मा च विन्ध्या पर्वतवासिनि हिंवन्मेरुनिलयां कैलासपुरवासिनि चाडूरहन्ति नितिज्ञा कामरूपात्रयी तनु व्रतस्माता धर्मशीडा सिंहासननिवासिनी वीरभद्रदिता वीरा महाकाल सुद्भवा विद्याधराचिता सिद्ध साध्यादुका पादुका, पावनी पावनीच, मोहिनी अचलात्मिका, महादुता वीजाक्षी सिंहवाहन गामी मनीषिणसुदा वणी वीलावादन तत्परा, श्वेतवाहन लसन्मतिरुञ्झति त्रिण्याक्षि तथा चैव महानन्दप्रदायिनी वसुप्रभासुमाल्याप्त कन्धरा पङ्कजानना परावरावरारोहा सहस्रनयनार्चिता श्रीरूपा श्रीमती श्रेष्ठा शिवनाम्नी शिवप्रिया श्रीप्रदा सीतकल्याणा श्रीधराधशरीरिणी श्रीकलानन्तदेष्टिश्च यशोज्जारातिसूदने रक्तबीजा निहन्ति च दैत्यसङ्गमर्दिनी सिंहारूढा सिंहकाशा दैत्यशोढितपायिनि सुकृतिसहिता सिंह संशयारसवेदिनी गुणाभिरामानाकारी वाहनानिर्जरार्चिता नित्योतिता स्वयं ज्योति स्वर्णकाया प्रकीर्तिता वज्रदण्डाङ्किता चैव तथामृतसञ्जीविनी वज्रचण्डा देवदेवी वरभद्रस्वविग्रहा माङ्गल्या मङ्गलात्मा च मालिनी माल्यधारिणी गन्धर्वी तरुणी चन्द्री चान्द्री खड्गायुधुधरा तथा सौदामिनी प्रजानन्दा तथा प्रोक्ताभृगुद्भवा एकानङ्गा च शास्त्रार्थ कुशला धर्मचारिणी धर्मस्सर्वस्व स्वाहा च धर्माधर्मविश्वया धर्ममया धर्म धार्मिकानां शिवप्रदा विधर्मा विश्वधर्मज्ञा धर्मार्थान्तर्विग्रहा धर्मवर्ष्मा धर्मपर्वा धर्मपारङ्गतान्तरा धर्मोपदेष्टि धर्मात्मा धर्मगम्या धराधरा कपालनीशाकलिनी कलां कलाकलितविग्रहा सर्वशक्तिर्विमुक्ता च कर्णिकारधराक्षिरा कंसप्राणहरा चैव युगधर्माधरा तथा युगप्रवृत्तिप्रवर्तिका प्रवक्ता श्रीसन्ध्याधेयविग्रहा स्वर्गापूर्गदात्री च तथा प्रत्यक्षदेवता आदित्यादिप्यगन्धा च दिवाकरणिमप्रभा पद्मासनगता प्रोक्ता षड्गपाणा सरासना शिष्टा विशिष्टा शिष्टेष्टा शिष्टश्चेष्ट प्रपूजिता सतरूपा सता वरिता सूर्येन्दुनेत्रा प्रद्युम्न जननि सुष्ठुमायिने सूर्यान्तरस्थिता चैव सत्यप्रतिष्ठितविग्रहा विवित्ता चोचते ज्ञान तारगा पर्वतात्मजा कात्यायिनी चण्डिका च चण्डी चंडि हैमवती तथा दाक्षायणी सती चैव अवाणी सर्वमङ्गला धूम्रलोचन हुमद्री चण्डमुण्डविनाशिनि योगनिद्रा योग भद्रा समुद्रतनया तथा देवप्रियंकरी शुद्धा भक्तिभक्तिप्रवर्धिनि त्रिनेत्रा चन्द्रमुकुटा प्रमथार्चितपादुका अर्जुनाश्च भीष्टधात्री च पाण्डवप्रियकारिणी कुमारलालनाशक्ता हरबाहूपधानिका दिग्नेशजननि भक्त विघ्नस्तोमप्रहारिणि सुस्मितेन्दुमुखी नाम्ना दयाप्रेसखी तथा अनादिनिधिना प्रेषा चित्रमाल्यानुलेपना कोटिचन्द्रप्रतिकासा कूटजालप्रमासिनी प्रत्याप्रहारिणि चैव मारणोच्चाटिनी तथा सुरासुरं त्रिवज्ञाङ्घ्रिर्मोहग्नेयानदायिनी षड्वैरि निग्रहकरी वैरिविद्राविनीतथा भूतसेव्या भूतदात्री भूतप्रीडा विमरतिका नारदस्तूतचारित्रा वरदेशा वरप्रदा वामदेवस्तुता चैव कामदा सोमशेखरा दिक्पालसेविता भव्या भामनी भवता यदि श्रीसौभाग्यप्रदात्री च भोगदारोगनाशिनी व्योमदा भूमिगा चैव मुनिपूज्य मदाम्पूजा वनदुर्गा च दुर्बोधा महादुर्गा प्रकीर्तिता ॐ फलश्रुतिः इदीदं कीर्तिनं भद्रा दुर्गानां सहस्रकं विसन्धं य पठे नित्यं तस्य लक्ष्मी स्थिरा भवेत् गृहभूतापि सा चादि पीडानश्चत्यसंशयम् बालग्रहादिपीडाया शान्तिर्भवति कीर्तनां मारिकादिमहारोगे पठतां सौख्यनमृणां व्यवहारे च जयतं शत्रुबाधानिवारकं दम्पत्यो कलहे प्राप्ते मिथप्रेमाभिवर्धकम् आयुरारोग्यदं पंशां सर्वसम्प्रतिदायकं विद्याभिभर्सकं नित्यम् पठताम् अर्धसाधकं शुभसं शुभकार्येषु पठतां शृणुतामपि यः पूजयति दुर्गां तां दुर्गाणां सहस्रकैः पुष्पैकुङ्कुम संमिश्रैः स तु यत्काङ्ख्यते श्री तत्सर्वं नास्ति नास्त्यत्र संशय यन्मुखे नित्यं दुर्गाणां किं तस्येतन्मन्त्रौघै कार्यं धन्यतुमस्य हि दुर्गाणां सहस्रस्य पुस्तकं यद्गृहे भवे न तत्र गृहपूजा भूतादि लाभास्यान्मङ्गलास्पदे तद्गृहं पुण्यदं क्षेत्रं देवी सन्निध्यकारकम् एतस्य श्रोत्रमुख्यस्य पाठकश्रेष्ठमन्त्रवे देवताया प्रसादेन सर्वपूज्य सुखी भवे इत्येतन्नगराजेन कीर्तितं मुनिषत्तम गुह्याद्गुह्यतरं स्तोत्रं वैस्नेहात् प्रकीर्तितं भक्ताय श्रद्धानाय केवलं कीर्तितामितं हिधारे नित्यं त्वं देव्यनुग्रहसाधकम् इति श्रीस्कन्दपुराळे नन्दनारसंवादे दुर्गाशहस्य नाम स्तोत्रम् सम्पूर्णम् ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु